कृष्णयजुर्वेदे क्रमपाठे षष्ठकाण्डे प्रथमः प्रश्नः प्रारम्भः प्राचीनविपुंशम् करोति प्राचीनविपुंशमिति प्राचीनाविपुंशम् करोति देवमनुष्याः एवमनुष्या दिशः देवमनुष्या इति देवामनुष्याः दिशो हि यभजन्त अभजन्त प्राचीनम् देवाः देवादक्षिणाः दक्षिणापितरः पितरः प्रतीची प्रतीची मनुष्याः मनुष्या उदीचीम् उदीचीम् रुद्राः रुद्रा यत् करोति प्राचीनवनुशमिति प्राचीनावंशम् करोति देवलोकम् एव लोकमेव एवलोकमितिवालोकम् एव तत् तद्यजमानः यजमान उपावर्तते उपावर्तते उपावर्तयत्यपावर्तते परिश्रेति श्रेत्यन्तर्हितः अन्तर्हितो हि अन्तर्हितैत्यन्तः हितः हि देवलोकः देवलोको मनुष्यलोकात् देवलोक इति देवालोकः मनुष्यलोकान्न मनुष्यलोकादिति मनुष्यालोकात् नास्मात् अस्माल्लोकात् लोकात् श्रेतव्यम् श्रेतव्यमिव श्रेतव्यमिति सूेतव्यम् इत्याहो आहुः कः को हि एतत् तद्वेद वेदृ यद्यमुष्मिन् मुष्मिन्लोके लोकेऽस्ति अस्ति वा वा न वा वेति इति लिक्षु लिक्ष्वधिकाशान् अभिकाशान् करोति करोत्युभयोः उभयोर्लोकयोः लोकयोरभिजिद्यै अभिजित्यै केशश्मश्रु अभिजित्या विद्यभिजिद्धिः केशश्मश्रुवपदे केशश्मश्रुति केशाश्मश्रु अपदे लखानि नखानि क्रिन्दते क्रिन्दते मृता मृता वै एषा एषा त्वक् त्वरमेध्या अमेध्यायत् यत्केशश्मश्रु केशश्मश्रुवृताम् केशश्मश्रुवि केशाश्मश्रु वृतामेव एवत्वचम् त्वचममेध्याम् अमेध्यामपहृत्य अपहृति यज्ञः यज्ञियो भूत्वा भूत्वामेधम् मेधमुप उपैति एत्यङ्गिरसः अङ्गिरसः स्वर्गम् स्वर्गम् लोकम् स्वर्गमिति अप्सुदीक्षातपसी अप्सिद्यपोसु दीक्षातपसी प्रीक्षातपसी इति दीक्षातपसी प्रावेशयन् प्रा अवेषयन्नप्सु अप्सु स्नाति अप्सिद्यपोसु स्नाति साक्षात् साक्षादेव साक्षादिति साक्षाद् एव दीक्षातपसी ईक्षातपसी अव दीक्षातपसी इति दीक्षातपसी अवरुन्धे रुन्धे तीर्थे तीर्थे स्नाति स्नातितीर्थे तीर्थे हि ि ते ते ताम् ताम्र प्रावेशयन् तीर्थे तीर्थे स्नादि स्नादितीर्थम् तीर्थमेव एव समानानाम् समानानाम् भवति भवत्यपः अपो अश्नादि अश्नाद्यन्तरतः अन्तरत एवमेध्यः मेध्यो भवति भवति वाससा वाससा दीक्षयति ईक्षयति सौम्यम् सौम्यम् वै वै क्षौमम् देवतया देवतया सोमम् सोममेषः एष देवताम् देवतामुप उभैति एतयः यो वीक्षते वीक्षते सोमस्य सोमस्य तनोः तनोरसि असितनुवम् तनुवम् मे मे पाहि पाहीति इत्याह आहस्वाम् स्वामेव एव देवताम् देवतामुप उभैति एत्यथोः अथो आशिषम् अथो विद्यथोः आशिषमेव आशिषमित्या आशिषम् एवैताम् एतामा आशास्ते शास्ते अग्नेः अग्नेस्तुषाधानम् तूषाधानम् वायोः तूषाधानमिति तूषा आधानम् वायोर्वातपानम् वातपानम् पितृणाम् वातपानमिति वातपानम् वात पितृणान् नीविः नीविरोषधीनाम् ओषधीनाम् प्रघातः प्रघातः आदित्यानाम् प्रघात इति प्राघातः आदित्यानाम् प्राचीनतानः प्राचीनतानो विश्रेषाम् प्राचीनतान इति विश्वेषाम् देवानाम् देवानामोतुः ओ त्रक्षत्राणाम् नक्षत्राणामधिकाशाः अधीकाशास्तत् तद्वै वा एतत् एतत्सर्वदेवत्यम् सर्वदेवत्यम् यत् सर्वदेवत्यमिति सर्वा यद्वासः वासयत् यद्वाससा वाससा दीक्षयति दीक्षयति सर्वाभिः सर्वाभिरेव देवैनम् एनम् देवताभिः देवताभिर्दीक्षयति दीक्षयति बहिःप्राणः बहिःप्राणो वै बहिः इति बहिः प्राणः वयिमनुष्यः तस्याम् अदशनम् प्राणः प्राणोऽश्नादि प्राण प्राणः अश्नादि सप्राणः सप्राण एव प्राणः एव दीक्षते दीक्षताशितः आशितो भवति अवदियावान् यावानेव एवास्य प्राणः प्राणस्तेन प्राण इति सह सह मेधम् मेधमुप उपैति एति घृतम् देवानाम् देवानाम् मस्तु मस्तु पितृणाम् पितृम् निष्पक्वम् निष्पक्वम् मनुष्याणाम् निष्पक्वमिति निःपक्वम् मनुष्याणाम् तत् तद्वै वा एतत् एतत् सर्वदेवत्यम् सर्वदेवत्यम् यद् सर्वदेवत्यमिति सर्वादेवत्यम् यन्नवनीतम् नवनीतम् यद् सर्वाः अभ्यङ्क इत्यपि अङ्के सर्वा एव देव देवताः देवताः प्रीणादि प्रीणादिप्रच्युतः प्रच्युतो वै प्रच्युत इति प्राच्युतः वा एषः एषोऽस्मात् अस्माल्लोकात् लोकादगतः अगतो देवलोकम् देवलोकमिति देवलोकम् देव यो दीक्षितः ईक्षितो मतरा अन्तरेव इव नवनीतम् नवनीतम् तस्मात् नवनीतमिति नवानीतम् तस्मान्नवनीतेन नवनीतेनाभि नवनीतेनेति नवनी नवानीतेन अभ्यङ्के अङ्गेनलोमम् अनुलोमम् यजुषा अनुलोममित्यनो लोमम् यजुषा व्यावृत्यै व्यावृत्या इन्द्रः व्यावृत्या यजिरि आवृत्यै इन्द्रो वृत्रम् अहन्तस्य तस्य कनीनिका कनीनिकापराः परापदत् अपदत्तद् तदाञ्जनम् आञ्जनमभवत् आञ्जनमित्याः अञ्जनम् अभवद्यत् यदाङ्के आङ्के चक्षुः आञ्जयिद्याः अङ्के चक्षुरेव एव भ्रातृव्यस्य भ्रातृव्यस्य वृङ्गे लुङ्गे दक्षिणम् दक्षिणम् पूर्वम् पूर्वमा आङ्के अङ्के सव्यम् सव्यम् हि पूर्वम् पूर्वम् मनुष्याः मनुष्या आञ्जलेः आञ्जलेन आञ्जनयिद्याः अञ्जले निधावते धावते निव इव हि इमनुष्याः मनुष्या धावन्धे धावन्धे पञ्च पञ्चकृत्वः कृत्वा आङ्गेः पङ्गे पञ्चाक्षर पञ्चाक्षर पङ्किः पञ्चाक्षरे द्विपञ्चाक्षराः पङ्किः पाङ्गः पाङ्गो यज्ञः यज्ञो यज्ञम् यज्ञमेव एवा अवरुन्धे रुन्धे परिमितम् परिमितवा परिमितमिति परिमितम् आङ्ग्रेः अङ्के परिमितम् अपरिमितम् हि अपरिमितमित्यपरिमितम् हिमनुष्याः मनुष्या आञ्जते आञ्जते सदूलया आञ्जत इत्याः अञ्जते सतोलया सतोलये दिशाथूलया आङ्के अङ्के पदूलया अपतोलया हि अपतोलयेत्यपाथोलया हिमनुष्याः मनुष्या आञ्जते आञ्जते व्यावृत्ति आञ्जत इत्याः अञ्जते व्यावृत्ति यत् व्यावृत्या इति आवृत्ति यदपतोलया अपतोलयाञ्जीत अपतोलयेत्मा तोलयः स्यात् स्यात्सतोलया सतोलया सतोलये अङ्के अङ्के मित्रत्वाय मित्रत्वायेन्द्रः मित्रत्वायेति मित्रात्वाय इन्द्रो वृत्रम् वृत्रमहन् अहं सः सोऽपः अपोऽभिः अभ्यम्रिय अम्रियत तासाम् तासाम् यत् यन्मेध्यम् मेध्यम् यज्ञम् यज्ञम् सदैवम् सदेवमासीत् तदप अपोत् उदक्रामत् अक्रामत्ते ते दर्भाः दर्भा अभवन् अभवनैर् यद्दर्भपुञ्जीलैः दर्भपुञ्जीलैः पवयति दर्भपुञ्जीलैरिति दर्भापुञ्जीलैः अवयत्याः या एव मेध्याः मेध्या यज्ञियाः यज्ञियाः स देवाः स देवा आवः आपस्ताभिः ताभिरेव एवैनम् एनम् पवयति अवयति द्वाभ्याम् द्वाभ्याम् भवेदि अहोरात्राभ्यामेव अहोरात्राभ्यामित्यहः रात्राभ्याम् एवैनम् एनम् भवेदि अवैदि त्रिभिः त्रिभिः पवयति इमे इमे लोकाः लोका एभिः एभिरेव एवैनम् एनम् लोकैः लोकैः पवयति पवयति पञ्चभिः पञ्चभिःपवयति पञ्चभिरतिपञ्चाभिः पवयति पञ्चाक्षरा पञ्चाक्षरा पङ्गिः पञ्चाक्षरेति पञ्चाक्षरा पङ्ग्यस्पाङ्गः पाङ्गो यज्ञः यज्ञो यज्ञाय यज्ञायैव एवैनम् एनम् पवयति पवैदिषड्भिः षड्भिःपवयति षड्भिरतिषड्भिः पवेति षड् षड्व वा ऋतवः ऋतव ऋतुभिः ऋतुभिरेव ऋतुभिरिति एवैनम् एनम् ववयति अवयति सप्तभिः सप्तभिः पवयति सप्तभिरिति सप्ताभिः अवयति सप्ता सप्त छन्दागुंसि छन्दागुंसि छन्दोभिः छन्दोभिरेव छन्दोभिरिति छन्दःभिः एवैनम् एनम् ववयति अवयति नवभिः नवभिः पवयति नवभिरिति नवाभिः अवयति नव नव वै पुरुषे पुरुषे प्राणाः प्राणाः स प्राणा इति प्राणाः सप्राणमेव सप्राणमिति सा प्राणम् एवैनम् एनम् भवेति अवैत्येकविंशत्या एकविंशत्या भवेति एकविंशत्येत्येकाविंशत्याः अवैति दश दशहस्याः हस्या अङ्गुलयः अङ्गुलयो दश दशपद्याः पद्या आत्मा आत्मैकविघुंशः एकविघुंशो यावान् एकविघुंश इत्येकविघुंशः यावानेव एव पुरुषः पुरुषस्तम् तमपरिवर्गम् अपरिवर्गम् भवयति अपरिवर्गमित्यपरिवर्गम् भवयति चित्पतिः चित्पदिस्त्वा चित्तदिचितोपदिः त्वा पुनातु पुनात्युति इत्याह आह मनः मनो वैपरिचित्पदिः चित्पतिर्मनसा एवैनम् एनम् पवयति अवैदि वाग्पदिः वाग्पदिस्त्वा वाग्पदि वाग्यः वापुनातु पुरात्विति इत्याह आह वाचा वाचैव एवैनम् एनम् पवयति अवैति देवः देवस्वाः सविता सविता पुनातु इत्याह आह सवितृप्रसोदः समितृप्रसूद एव समितृप्रसूद इति एवैनम् एनम् पवयति पवयति तस्य तस्य ते ते पवित्रपदे पवित्रेण पवित्रपद इति पवित्रापदे पवित्रेण यस्मै यस्मैकम् तम् पुने पुलेन तच्छ गेयम् इत्याह आशिषम् आशिषमेव आशिषमित्या आशिषम् एवैताम् एतामा आशास्ते शास्त्रैति शास्ते, शास्ते यावन्धो वै वै देवाः देवायज्ञाय यज्ञायापुनत अपुनतते तदेव एवाभवन् एवा अभवनयः य एवम् एवम् विद्वान् विद्वान् यज्ञाय यज्ञाय पुनीते, पुनीते भवति भवत्येव एव बहिः बहिःपवयित्वा पवयित्वा अन्तः अन्तःप्रपादयति पालयति मनुष्यलोके मनुष्यलोक एव मनुष्यलोक इति मनुष्यालोके देवैनम् एनम् पवयित्वा पवयित्वा भूतम् भूतम् देवलोकम् देवलोकम् प्र देवलोकमिति देवालोकम् प्रणयति नयत्यदीक्षितः अदीक्षित एकया एकया आहुत्येति आहुत्येत्याहुत्य इत्याहुः आहुःस्रवेण श्रेण चतस्रः चतस्रो जुहोदिहोदिदीक्षितत्वाय दीक्षितत्वायसृजा दीक्षितत्वायति दीक्षितत्वाय सृजा पञ्चमीम् पञ्चमीम् पञ्चाक्षरा पञ्चाक्षरा वृन्दिः पञ्चाक्षरै पञ्चाक्षरा पङ्क्तिः पाङ्गः पान्तो यज्ञः यज्ञो यज्ञम् यज्ञमेव एवा अवरुन्धे वृन्धाकुवृत्यै आकुवृत्यै प्रयुजे आगोत्या इत्यागोचिः रयुजग्नये रयुजैति प्रायुजे अग्नये साहा आहागोत्या आगोत्याहि आहूत्येत्यागोत्याः हि पुरुषः पुरुषो यज्ञम् यज्ञमभि अभिप्रयुङ्के प्रयुङ्के विजेय प्रयुङ्क्त इति प्रयुङ्के यजेति इति मेधायी मेधायै मनसे मनसे अग्नये स्वाहा स्वाहेति इत्याह आह मेधया हि मनसा मनसा पुरुषः पुरुषो यज्ञमभिगच्छति अभिगच्छति सरस्वत्यै अभिगच्छतीत्यभिगच्छति सरस्वत्यै पुरुषे पूरुषेऽये अग्नये स्वाहा ृथिवी पृथिवी पूषा पूषा वाचा वाचैव एव पृथिव्या पृथिव्या यज्ञम् यज्ञम् प्रयुङ्े युङ्तापः आपो देवीः देवेर्बृहतिः बृहतेर्विश्वशम्भुवः विश्वसम्भव इति विश्वसम्भव इति विश्वशम्भवः इत्याह आहयाः या वै वै वर्ष्याः ता आपः आपो देवीः देवीर्बृहतीः बृहतीर्विश्वसम्भुवः विश्वसम्भुवो यत् विश्वसम्भुव इति विश्वासम्भुवः यदेतत् एतद्यजुः यजुर्न न ब्रूयात् ब्रूयाद्दिव्याः आपः आपो सानन्ताः इमं लोकम् लोकमा आगच्छेयुः गच्छेयुरापः आपो देवीः देवेर्बृहतीः बृहतीर्विश्वसम्भुवः विश्वसम्भुव इति विश्वसम्भुव इति विश्वासम्भुवः इत्याह आहास्मै अस्मा एवैनाह येन लोकाय लोकाय श्रमेति शमयति तस्मात् तस्माच्छान्ताः श्रान्ता इमम् इमम् लोकम् लोकमा आगच्छन्ति गच्छन्ति द्या वा पृथिवी द्यावापृथिवी इति द्यावापृथिवी विद्यावा पृथिवी इत्याह आहद्या वा पृथिव्योः द्यावा पृथिव्योर्हि ृथिव्या वापृथिव्यो यज्ञः यज्ञ उरु उर्वन्तरिक्षम् अन्तरिक्षमितिक्षे अन्तरिक्षे हि हि यज्ञः यज्ञो बृहस्पतिः बृहस्पतिर्नः नो हविषा हविषा वृथातो वृथा द्विह आह ब्रह्म ब्रह्म वै वै देवानाम् स्व निर्ब्रह्मणा ब्रह्मणैव एवास्मै अस्मै यज्ञम् यज्ञमव अवरुन्धे रुन्धेब्रूजाद्ब्रूजाद्भिधेः विधेरिति इति यज्ञस्थाणुम् यज्ञस्थानुपृच्छेत् यज्ञस्थानमिति यज्ञास्थानम् पृच्छेद्वृथा तु वृथाचिति नित्याह आह यज्ञस्थाणुम् यज्ञस्थाणुमेव यज्ञस्थानमिति यज्ञास्थानम् एव परि प्रजावृज यज्ञम् प्रजावृजरे यज्ञमसुजर असः सोऽस्मात् अस्मात् सृष्टः सृष्टः पराण पराणैत्सः स प्र प्रयजो यजुरव्रीणात् अव्रीनात् प्रसाम स मतम् तवृगृद उदयच्छद अयच्छद्य उदयच्छद उदयच्छुद अयच्छदग्रहणस्य औग्रहणस्य ओग्रहणत्वम् औद्ग्रहणस्य इत्यौ ग्रहणस्य औग्रहणत्वम् च औद्ग्रहणत्वमित्यौद्ग्रहणत्वम् उद्यत्या इति अनुष्टप् छन्दसा अनुष्टमित्यहो आहुस्तस्मात् तस्माद् अष्टभार अनुष्टुभा जुहोदि अनुष्टुभेद्यनोस्तुभा युहोति यज्ञस्य यज्ञस्योद्गत्यै उद्गत्यै द्वादश उद्गत्या इत्युतैः द्वादशवात्सबन्धानि वात्सबन्धान्य वात्सबन्धानीति वात्सबन्धानि उदयच्छन् अयच्छन्निति इत्याहुः आहुस्तस्मात् तस्माद्वादशभिः द्वादशभिर्वात्सबन्धविदः वात्सबन्धविदो दीक्ष्यन्ते वात्सबन्धविद वात्सबन्धाविदः दीक्षयन्ति सा सा वै वा एषा एषष्टुक अनष्टग्वाग अनष्टमस्तु वागनष्टक अनष्टग्यनष्टर्चा रिचा दीक्षयति दीक्षयति वाचा दी वाचैव एवैनम् एनम् सर्वया सर्वया दीक्षयति दीक्षयति विश्वेः दी विश्वे देवस्य देवस्य नेतुः नेतुरिति सावित्रिन एतेन वृत्तः मर्तो वृणीत वृणीतसख्यम् सख्यमिति इत्याह आदेवत्याः गृदेवत्यैतेन गृदेवत्यैति विषयदेवत्याः एतेन विश्वे विश्वे रायः रायेशुध्यसि विशुध्यसीति इत्याह आ वैश्वदेवी वैश्वदेव्येतेन वैश्वदेवीति वैश्वदेवी एतेन द्युम्नम् ज्युम्नम् वृणीत वृणीत पृश्यसे इत्याह अहवौष्णी औष्ण्येतेन एतेन सा सा वै वा एषा यत् सर्वदेवत्येति सर्वा देवत्याः यदेतया एता रचा दीक्षेति सर्वाभिः दी, सर्वाभिरेव एवैनम् एनम् देवताभिः देवताभिर्दीक्षेति दीक्षेति सप्ताक्षरम् सप्ताक्षरम् प्रथमम् सप्ताक्षरमिति सप्ताक्षरम् प्रथमम् पदम् पदमष्टाक्षराणि अष्टाक्षराणि त्रीणि अष्टाक्षराणि ज्यष्टाक्षराणि त्रीणि यानि यानि त्रीणि त्रीणितानि तान्वेष्टौ अष्टावप उपयन्दे यन्ध्यानि यानि चत्वारि चत्वारितानि तान्वेष्टौ अष्टौ यत् यदष्टाक्षर अष्टाक्षरा तेन अष्टाक्षरे चष्टाक्षरा येन गायत्री गायत्री यत् एकादशाक्षरे एकादशाक्षरः येन त्रिष्टगिर् द्वादशाक्षर द्वादशाक्षर तेन द्वादशाक्षरे येन जगति जगति सा सा वै वा एषक् यत्सर्वाणि सर्वाणि छन्धाकंसि छन्धाकंसि यत् यदेतया एतदर्चा दशा दीक्षयति दीक्षयति सर्वेभिः सर्वेभिरेव एवम् छन्दोभिः छन्दोभिर्दीक्ष्यति छन्दोभिर्छन्द्राभिः दीक्षयति शब्दाक्षरम् शब्दाक्षरम् प्रथमम् सप्ताक्षरमिति सप्ताक्षरम् प्रथमम् पदम् पदकम् सप्तपदा सप्तपदा शक्परि सप्तपदेति सप्तापदा शक्परि पशवः पशवः शक्परि शक्परि पशोन् पशोनेव एवाव अवरुन्धे वृन्ध एकस्मात् एकस्मादक्षरात् अक्षरादनाहाम् अनाप्तम् प्रथमम् प्रथमम् पदम् पदन्तस्मात् तस्मादि यद्वाचः वाचो नाप्तम् अनाप्तम् तद् तन्मनुष्याः मनुष्या उप जीवन्ति जीवन्ति पूर्णयाः पूर्णया जुहोति जहोति पूर्णः पूर्ण इव इव हि यः प्रजापतिः प्रजापतिः प्रजापतेः प्रजापति हृदिप्रजापतिः प्रजापतेराप्तीः प्रजापते हृदिप्रजापतेः आप्तिन्यूनया न्यूनया जुहोति न्यूनयेतिनिवूनयाः जुहोतिन्यूनाद् न्यूनादि न्यूनाति तिनिवूनाद् यत् प्रजापतिः प्रजापतिस्प्रजाः प्रजापतिहृतिप्रजापतिः प्रजा असृजत प्रजा इति प्राजाः असृजत प्रजानाम् प्रजानाकम् दृश्यैः प्रजानामिति प्राजानाम् दृश्या इति सृश्यैः पृक्षामे वै पृक्षामे इत्युगसामे वै देवेभ्यः देवेभ्य विज्ञाय विज्ञायातिष्ठमाने कृष्णोरूपम् रूपम् कृत्वा कृपावक्रम्य अवक्रम्या तिष्ठताम् अवक्रम्ये अपराक्रम्य अतिष्ठताम् ते ए मन्यन्त यम् वै वा इमे इमे उपावर्त्यतः इमे इमे उपावर्क्ष्यतः सः उपावर्क्ष्यत इत्युप आवर्क्ष्यतः स भविष्यति भविष्यतीति इदि ते के उप क्ले इे ते ते अहोरात्र्योः ते अहोरात्रयोर्ममानम् अहोरात्रयोरित्यहः रात्रयोः महिमानमपनिधाय अपनिधाय देवान् अपनिधायत्युपनिधाय देवानुपावर्तेताम् उपावर्तेतामेषः उपावर्तेनामित्युपा आवर्तेताम् एष वै वा रुचः रचो वर्णः वर्णो यत् यच्छुक्लम् शुक्लम् कृष्णाजिनस्य कृष्णाजिनस्यैषः कृष्णाजिनस्येति कृष्णार्जिनस्य एष साम्नः साम् नो यत् यत्कृष्णम् कृष्णवृक्सामयोः ऋक्सामयोः शिल्पे ऋक्सामयोरित्यृग् सामयोः शिल्पे स्थः शिल्पे इति शिल्पे स्थ इति इत्याह आहर्से ऋक्सामे एव ऋक्सामे इत्यसामे एव वा अवरुन्धे वृन्ध एषः एष वै वा अह्नः अह्नो वर्णः वर्णो कृष्णार्जुनस्येति कृष्णार्जुनस्य एष रात्र्याः रात्र्यात्कृष्णम् कृष्णेवैनयोः एनयोस्तत्र तत्र न्यक्तम् यत् व्याक्तमिति न्यक्तम् तदेव एवान्धे वृन्धे कृष्णार्जुनेन कृष्णार्जुनेन दीक्षेति कृष्णार्जुनेनेति कृष्णार्जुनेन दीक्षेति ब्रह्मणः ब्रह्मणो वै वा एतत् एतद्रूपम् रूपयत् यत्कृष्णार्जिनम् कृष्णार्जिनम् ब्रह्मणा कृष्णाजिनमिति कृष्णार्जिनम् ब्रह्मणैवैनम् एनम् दीक्षेति दीक्षेतिमाम् इमान्ध्रियम् एवम् शिक्षमाणस्य शिक्षमाणस्य देव देवेति इत्याह आह यथा यजुः यथा यजुरेव यथा यजुरिति यथा यजुभुः वै वा एष यद् यद्यीक्षितः वीक्षित उल्बम् उल्बम् वासः वासस्तोर्णुदे ऊर्णुदे तस्मात् तस्माद्गर्भाः गर्भाः प्रावृताः प्रावृताः जायन्ते जायन्ते न पुरा पुरा सोमस्य सोमस्य क्रयात् क्रयादप अपोर्णीत ऊर्णीत यत् यत्पुरा पुरा सोमस्य सोमस्य क्रयात् क्रयादपोर्णीत अपोन्व्रीतगर्भाः अपोन्व्रीतेद्य उर्नृतगर्भाः प्रजानाम् प्रजानाम् परापादुकाः प्रजानामिति प्राजानाम् परापादुकाः स्युः परापातुका इति परापादुकाः क्रीडे क्रीडे सोमे सोमेऽप अपोर्णुते ऊर्णुते जायते जायत एव यथा प्रद्यपोर्णते तादृग् प्रद्यपोर्णते इति प्रति अपोर्णते तादृगेव एव तद् तदङ्गिरसः अङ्गिरसः स्वर्गम् स्वर्गम् लोकम् स्वर्गमिति स्वहागम् लोकम् यन्तः यन्दपूर्जम् ऊर्जम् यदत्यशिष्यत अत्यशिष्यतते अत्यशिष्यते शराः भवन, वे, वे शरा अभवन् अभवन्नूर्ग् वै शराः शरायर् यच्छरमैः शरमयी मेखला शरमयी त्रिशरमयी मेखला भवति भवत्यूर्जम् ऊर्जमेव एवाव अवरुन्धे रुन्धे मध्यरः मध्यतः सन् सं, नक्षरिमध्यरः मध्यर एव एवास्मै एवा तस्माऊर्जम् ऊर्जम् दधाति दधाति तस्मान् तस्मान्मध्यदः मध्यत ऊर्जा ऊर्ध्व भुञ्जरे भुञ्जदऊर्ध्वम् ऊर्ध्वम् वै वै पुरुषस्य पुरुषस्य नाभ्यै नाभ्यै मेध्यम् मेध्यमवाचीनम् अवाचीनममेध्यम् अमेध्यम् यद् यन्मध्यदः अध्यदत् सन्नश्यति सन्नश्यति मेध्यम् सन्नश्यरीति सन्नश्यति मेध्यम् चैव एवास्य तस्यामेध्यम् तर। अमेध्यम् तर। च्यावर्तयति व्यावर्तयदी नः व्यावर्तयतीति वि आवर्तयति इन्द्रो वृत्ताय वृत्ताय वज्रम्भ्र प्राहत् अहरत्सः सत् रेखा रेखावि व्यभवत् अभवत्स्याः स्यस्तृतीयम् तृतीयपुंमृधः ततस्तृतीयम् तृतीयन्यूपः यूपस्तृतीयम् तृतीये येऽधः शराः अन्धः शरा अशीर्यन्द अन्धः शरा इत्यन्दः शराः अशीर्यन्द्रे ते शराः शरा अभवन् अभवन्तत् तच्छराणाम् शराणाम् शरत्वम् शरत्वम् वज्रः शरत्वमिति वज्रो वै शराः शराः क्षुत् क्षुत्खलु खलुष्यस्य मनुष्यस्य भ्रातृव्यः भ्रातृव्यो यद् यच्छी शरमयी मेखला शरमयीति शरामयी मेखला भवति एव साक्षात् साक्षात् साक्षादिति साक्षात् क्षुधम् भ्रातृव्यम् मध्यदः मध्यदोप अपहरे अरे त्रिवद् त्रिवृद्भवति त्रिवदे त्रेवृद् भवति त्रिवद् त्रिवृद्वै त्रिवदे प्राणः प्राणस्त्रतम् प्राणैः त्रिवृतमेव त्रिवृतमिति त्रिवृतम् एव प्राणम् प्राणम् मध्यतः प्राणमिति प्राणम् मध्यतो यजमाने यजमाने दधाति दधाति पृथ्वी पृथ्वी भवतिरजूनाम् ऋजूनाम् व्यावृत्त्यै व्यावृत्त्यै मेखलया यावृत्या इति आवृत्त्यै मेखलया यजमानम् यजमानम् वीक्षयति ईक्षयति योक्त्रेण योक्त्रेण पत्नीम् पत्नीम् व्यथुनत्वाय मिथुनत्वाय यज्ञः मिथुनत्वायेति मिथुनात्वाय यज्ञो दक्षिणाम् दक्षिणा अभ्यध्यायत् अध्यायत्साम् तापुंसम् समभवत् अभवत्तत् तदिन्द्रः इन्द्रो चायत् अचायत्सः यो वै वा इतो जनिष्यते जनिष्यते सः इदम् इदम् भविष्यति भविष्यतीति इदिदाम् ताम्र प्राविशत् अविषत्तस्या आह तस्या इन्द्रः इन्द्र एवजायत अजायतसः सोऽमन्यत अमन्यतयः यो वै वै मत् मदितः इतोऽपरः अपरो जनिष्यते जनिष्यते सः स भविष्यति इति तस्याह तस्या अनुमृश्य अनुमृष्ययोनिम् अनुमृश्येत्यममृश्य योनिमा आच्छिनत् अक्षिनत् सा सा सूतवशा सोतवशात् सूतवशेति सूतावशा जन्मा, तत् तत्सूतवशायी सूतवशायी जन्म सोतवशाय सूतावशायी जन्मता काकम्हस्ते हस्तेनिवेष्टयत अवेष्टयतता ताम् मृगेषु मृगेषु नित् अदथात् सा सा कृष्णविषाणा कृष्णविषाणा अभवत् कृष्णविषाणे इति कृष्णाविषाणा अभवदिन्द्रस्य इन्द्रस्य योनिः योनिरसि रसि इति कृष्णविषाणाम् कृष्णविषाणाम् वा कृष्णविषाणामिति कृष्णाविषाणाम् प्रयच्छति यच्छति स योनिम् स योनिमेव स योनियोनिम् एव यज्ञम् यज्ञम् करोति करोति सयोनिम् सयोनिन्द्रक्षिणाम् सयोनिमिन्द्रमम् योनिम् इन्द्रकम् सयोनित्वाय सयोनित्वाय कृष्यै शयोनित्वायनीय कृष्यै त्वा सस्यायै सुसस्याजायै सुसस्यायादिषु सस्यायै आरस्मात् तस्मादकृष्टप्रत्याः ओषधयः कृष्टप्रत्याप्रत्याः ओषधयः प्रच्यन्ते पच्यन्ते स्वविपलाभ्यः स्वविफलाभ्यस्त्वाभ्यैति सोऽपलाभ्यः ओषधीभ्यः ओषधीभ्यैः ओषधेभ्यैत्योषधीभ्यः इत्याह आतस्मात् तस्मादोषधयः ओषधयः फलम् फलम् गृह्णन्ति गृह्णन्ति यद्धस्तेन हस्तेन गण्डूयेत कण्डूयेदपामनम् भावुकाः पामनम् भावुकाः प्रजाः पामनम् भावुका इति पावमनम् भावुकाः प्रजा स्युः इति प्राजाः स्युर्यद् यत्स्मयेत स्मयेतनग्नम् भावुकाः नग्नम् भावुकाः कृष्णविषाणयाः अग्नम् भावुका इति नग्नम् भावुकाः कृष्णविषाणया कण्डूयते कृष्णविषाणयेति कृष्णाविषाणया कण्डूयते अभिगृह्य अभिगृह्य स्मयते अभिगृह्येत्यभिगृह्य स्मयते प्रजानाम् प्रजानाम् गोपीधाय प्रजानामिति प्राजानाम् रोपीधाय न पुरा पुरा दक्षिणाभ्यः कृष्णविषाणामव कृष्णविषाणामिति कृष्णाविषाणाम् अवसृतेत् श्रुतेद्यत्पुरा पुरा दक्षिणाभ्यः दक्षिणाभ्यो नेतोः नेतोः कृष्णविषाणाम् कृष्णविषाणामवच्रतेत् कृष्णविषाणा विदि कृष्णाविषाणाम् अवसृतेद्योनिः अवच्रेदित्यवचृतेत् द्योनिः प्रजानाम् प्रजानाम् परापातुका प्रजानामिति प्राजानाम् परापातुका परापातुकेति परापातुका स्यान् नीतासु नीतासु दक्षिणासु दक्षिणासु चात्वाले चात्वाले कृष्णविषाणाम् कृष्णविषाणाम् रा कृष्णविषाणामिति कृष्णाविषाणाम् प्रास्यति अस्यति योनिः योनिर्वै मयि यज्ञस्य यज्ञस्य चात्वानुम् चात्वालम् योनिः योनिः कृष्णविषाणा कृष्णविषाणा योनौ कृष्णविषाणेति कृष्णाभिषाणा योनामेव एव योनिम् योनिम् वाग्वै वै देवेभ्यः देवेभ्योप अपा अक्रामद् अक्रामद्विज्ञाय यज्ञायादिष्ठमाना अधिष्ठमाना सा सावनस्पतीन् अनस्पतीन्द्र प्राविशत् अविषत्सा त्रैषा एषा वाग्वाग्वनस्पतिषु अनस्पतिषु वदति वदति या यादुन्दुभौ तुन्दुभौ या या तोणवे या या वीणायाम् वीणायाञ्जित् यद्दीक्षितदण्डम् दीक्षितदण्डम् प्रयच्छति दीक्षितदण्डमिति दीक्षिता दण्डम् प्रयच्छति वाचम् प्रयच्छतीति प्रायच्छति वाचमेव एवाव अवरुन्धे रुन्ध औदुम्बरः औदुम्बरो भवति भवत्यूर्ग् ऊर्घ्व वा ऊदुम्बरः ऊदुम्बर ऊर्जम् ऊर्जमेव मुखेन मुखेन संमितः भवति संहित भवति मुखतः मुखत एवास्मै अस्मार्जम् ऊर्जम् दधाति दधाति तस्मात् तस्मान् मुधरः मुधरऊर्जा ऊर्जा भुञ्जरे भुञ्जरे क्रीरे क्रीरे सोमेः सोमे मयिन्त्रावृणाय मयिन्त्रावर्णाय दण्डम् मयिन्त्रावृणाय इति मयिन्त्रावृणाय दण्डम् प्रयच्छति यच्छति मयन्त्रावर्णः मयिन्त्रावर्णो हि इति मयिन्त्रावृणः इति पुरस्ताद् पुरस्तादृत्विभ्यः पृत्विभ्यो वाचम् पृथ्वीभ्यृत्विज्यः वाचम् विभजति विभजति ता विभजतीति विभजति ऋत्विजो यजमाने यजमाने प्रति प्रतिष्ठापयन्ति स्थापयन्ति स्वाहा स्वाहायज्ञम् यज्ञम् मनसा मनसेति इत्याह आह मनसा हि पुरुषः पुरुषो यज्ञम् यज्ञमभिगच्छति अभिगच्छति स्वाहाः अभिगच्छतीत्यभिगच्छति स्वाहाद्या वा पृथिवीभ्याम् द्यावापृथिवीभ्यामिति द्यावापृथिवीभ्यामिति द्यावाः पृथिवीभ्याम् इत्याह आहद्या वा पृथिव्योः द्यावापृथिव्योरिः द्यावापृथिव्योरिति द्यावाः पृथिव्योः हि यज्ञः यज्ञस्वाहारोः उरोरन्तरिक्षात् अन्तरिक्षादितिहान्तरिक्षे अन्तरिक्षे हि हि यज्ञः यज्ञस्वाहा स्वाहारज्ञम् यज्ञम् वासात् वातादा आरभे रभयति इत्याह आहायम् अयम् वाव वावयः यः पवते पवते सः स यज्ञः यज्ञस्तम् तमेव एव साक्षात् साक्षादादि साक्षात् आरभरे रभरे मुष्टी मुष्टीकरोति मुष्टी इति मुष्टी करोति वाचम् वाचम् यच्छति यज्ञस्य यज्ञस्य धृत्यै धृत्या अलीक्षिष्ट अलीक्षिष्टायम् अयम् ब्राह्मणः ब्राह्मण इति उपागुंशु उपाविष्वाः उपाविष्वित्युपागुंशु आह देवेभ्यः देवेभ्य एवम् एनम् ब्राह आहत्रिः त्रिवृच्चैः उच्चैरुभयेभ्यः उभयेभ्य एवैनम् एनम् देवमनुष्येभ्यः देवमनुष्येभ्यः प्र एवमनुष्येभ्यै देव मनुष्येभ्यः आह पुरा पुरानक्षत्रेभ्यः नक्षत्रेभ्यो वाचम् वाचम् विसृजेत् यत्पुरा पुरानक्षत्रेभ्यः नक्षत्रेभ्यो वाचम् वाचम् विसृजेत् विसृजेद्यज्ञम् विसृजेदिति विसृजे्यात् छिन्द्यादुदितेषु उदितेषु नक्षत्रेषु उदितेष्विद्युदुदितेषु नक्षत्रेषु व्रतम् व्रतम् कृणतेति इति वाचम् वाचम्बि विसृजति यज्ञवृतः यज्ञंव्रतो वै यज्ञव्रत इति यज्ञावृतः वैदि दीक्षितः दीक्षितो यज्ञम् यज्ञमेव एवाभि अभिवाचम् वाचम्बि सृजति यदि यदि विसृजेत् विसृजेद्वैष्णवीम् विसृजेदिति विसृजेत् वैष्णवीमृचम् अनुब्रूयात् ब्रूयाद्यज्ञः यज्ञो वै वै विष्णुः विष्णुर्यज्ञेन यज्ञेनैव एव यज्ञम् यज्ञपुंसम् सन्तनोति तनोति दैवी दैवीम् धियम् धियम् इति इत्याह आह यज्ञम् यज्ञमेव एव तत् तन्वृतयति सुपारा नः सुपारेति सुपारा नो असत् असद्वशेः वश इत्याह आहव्युष्टिम् व्युष्टिमेव व्युष्टिमितिरि वृष्टिम् एवाव प्रवन्धे वन्धे ब्रह्मवादिनः ब्रह्मवादिनो वदन्ति ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति होतव्यम् होतव्यम् दीक्षितस्य दीक्षितस्य गृहा होत्र्या इति हविः हविर्वै वै निरीक्षितः दीक्षितो यत् यज्जुहुयाद् जुहुयाद्यजमानस्य यजमानस्यापदाय अवदाय जुहुयात् अवदायेद्यपादाय जुहुयाद्यत् यन्न न जुहुयात् युहयाद्यज्ञपरुः यज्ञपरुरन्दः यज्ञपरुरि यज्ञपरुः अन्तर्याद् याद्ये ये देवाः देवामनोजाताः मनोजाता मनोयुजः मनोजाता इति मनः जाताः मनोयुज इति मनोयुज इति मनहायुजः यज्ञाः आह प्राणाः प्राणा प्राणा इति प्राणाः मयि देवाः देवामनोजाताः मनोजाता मनोयुजः मनोजातादिति मनः जाताः मनोयुजस्तेषु मनोयुज इति मनः युजः तेष्वेव एव परोक्षम् परोक्षम् जुहोति परोक्षमिति परः रक्षम् जहोति तत् तन्नेवम् स्वबन्दम् वै वै दीक्षितम् दीक्षितकम् रक्षागुंसि रक्षागुंसि जिघागुंसन्ति दिघागुंसन्त्यग्निः अग्निः खलु खलु वै वै रक्षोहा रक्षोहाग्नेः रक्षोहेति रक्षहाः अग्ने त्वम् त्वगुंसु सुजागृहि जागृहि वयम् वयगुंसु सुमन्दिधीमहि मन्दिधीमहीति आहाग्निम् अग्निमेव एवाधिपाम् अधिपाम् कृत्वा अधिपामित्यधिपाम् कृत्वा स्वविधि स्वविधि रक्षसा रक्षसामपहत्यै अपहत्या अव्रत्यम् अपहत्या इत्यपाहत्यै अव्रत्यमिव इव मयि वा योदीक्षितः दीक्षितः स्वपिः स्वभिः त्वम् त्वमग्ने अग्ने व्रतपाः व्रतपा असि व्रतपा इति व्रतापाः असीति इत्याह व्रतपतिः व्रतपतिः सह व्रतपतिरिति व्रतापतिः एवयम् एनम् व्रतम् व्रतमा आलम्भयति लम्भयति देवः देव आमृत्येषु मृत्येष्व एति इत्याह देवो हि येषः एष सन् सन्वत्येषु मत्येषु त्वम् संयज्ञेषु यज्ञेष्वीड्यः ईड्यै इत्याह आहैतम् एतम् हि यज्ञेषु यज्ञेष्वीडते ईडरेप अभवै वैदितात् ईक्षितात्सुषुपुषः सुषुपुष इन्द्रियम् इन्द्रियम् देवराः देवराः क्रान्ति विश्वे देवाः देवा अभि अभिमाम् मामा, मा आववृत्रन् अववृत्रन्निति इत्याह आहेन्द्रियेण इन्द्रियेणैव एवैनम् एनम् देवताभिः देवताभिः सम् सन्मयति न यदिर् यदेतत् एतद्यजुः यजुर्न न ब्रूजार् ब्रूजाावतः एव पशून् पशोनभि अभिरीक्षेत दीक्षेत तावन्तः तावन्दोऽस्य अस्य पशवः पशवः स्युः स्यूलास्वलास्वे यत् कियत्सोम सोमा आभूयः भूयोभर भरेति इत्याह अपरिमितानेव मितान, अपरिमितानित्यपरिमितान् एव पशून् पशूनव अवरुन्धे वृन्धे चन्द्रम् चन्द्रमसि असि मम मम भोगाय भोगाय भव भवेति इत्याह आह यथा देवतम् यथा यथा देवतमिति यथा देवतम् एवीना आह येनाः प्रति प्रतिगृह्णाति गृह्णाति वायवेः वायवेः त्वा परावरुणाय वरुणाय त्वा त्वेति एवमेताः एता न नानुदिशेत् अनुदिशेदयसा देवतम् अनुदिशेदित्यनो दिशेत् अयसा देवतम् दक्षिणाः अयसा देवतमित्य सा देवतम् दक्षिणागमयेत् गमयेन आ देवताभ्यः देवताभ्यो वृश्येत वृश्येत यत् यदेवम् एवमेताः एता अनुदिशति अनुदिशति यथा देवतम् अनुदिशतीत्यनुदिशति यथा देवतमेव यथा देवतमिति यथा देवतम् एव दक्षिणाः दक्षिणा गमयति न देवता अभ्य देवता अभ्य आवृश्यते वृश्यते देवीः देवीरापः आपो अवाम् अवान्नपात् अपादिति इत्याह आहर यद्वः वो मेध्यम् मेध्यम् यज्ञम् यज्ञियकम् सदेवम् सदेवम् तदेवमिति सा देवम् तद्वः वोमा माव अपक्रमिशम् क्रमिषमिति इति अच्छिन्नम् तन्तुम् तन्तुम् पृथिव्याः पृथिव्यानु अनुगेशम् गेशमिति इत्याह आहसेतुम् सेतुमेव एव कृत्वा कृत्वादि अत्येति एतीत्येति एवा वै वै देवयजनम् देवयजनमध्यवसाय देवयजनमिति देवायजनम् अध्यवसाय दिशः अध्यवसायेति अवसाय दिशो न न प्र प्राजानन् अधानन्ते एन्यः अन्योन्यम् अन्यमुप उपाधावन् त्वया प्रजानाम जानाम त्वया त्वयेतिसम् समध्रियन्द अध्रियन्द त्वया त्वया प्रजानाम जानामेति इति साब्रवीत् अब्रवीद्वरम् वरम् वृणै मत्प्रायणाः मत्प्रायणा एव मत्प्रायणा इति मधुप्रायणाः एवः यज्ञा मधुसेनाः मधुसेना सन् मदुदयना इति मदु उदयनाः असन्दिति इति तस्मात् तस्मादादित्यः आदित्यः प्रायणीयः प्रायणीयो यज्ञानाम् प्रायणीय इति प्रायनीयः यज्ञानामादित्यः आदित्य उदयनीयः उदयनीयः पञ्च उदयनीय इत्युदोदयनीयः पञ्च देवताः देवता यजति यजति पञ्च पञ्चदृशः दिशो दिशाम् दिशाम् प्रज्ञाति प्रज्ञात्याथो प्रज्ञात्या प्रज्ञाति अथो पञ्जाक्षर अथो इत्यथोजाक्षर पन्दिः पञ्जाक्षरे पण्डिः पाङ्गः पाङ्गो यज्ञः यज्ञो यज्ञम् यज्ञमेव अपवृन्धे वृन्धे प्रत्या प्रत्यागस्वस्यम् स्वस्ति एजम् प्राचीम् प्राचीमेव एव तया तया दिशंग, दिशम् दिशम् प्र प्राजानन् अजानन् अग्निना अग्निना दक्षिणा दक्षिणा सोमेन सोमेन प्रतीचीम् प्रतीजीम् सरित्रा सरित्रोदीचीम् अदित्या अदित्योर्ध्वा ऊर्ध्वागस्वस्त्यम् स्वस्ति प्राचीम् प्राचीमेव एतदया तयादिशम् दिशम्र प्रजानादि जानादि प्रध्यागस्वस्तिम् स्वस्यमिष्ट्वा इष्ट्वाग्निसोमौ अग्निसोमौ योमावित्यग्नीसोमौ यदि रक्षुषि चक्षुषी वै चक्षुषी इति रक्षुषी वा एते एते यज्ञस्य एते ताभ्यामेव एवानौ अनुपर्ष्यति पश्यद्यग्नीशोमौ अग्नीशोमाविश्वा अग्नीशोमावित्यग्नीसोमौ इष्ट्वा सवितानम् यदि सविदर्प्रसोदः सुदर्प्रसोद एव सदर्प्रसोद यदि सविदर्प्रसोदः एवानो अनुपर्ष्यति पश्यति सवितानम् सवितानविश्वा इष्ट्वादितिम् अदितिङजते यदतीयम् इयम् अदितिरस्याम् अस्यामेव एव प्रतिष्ठाय प्रतिष्ठाया नो प्रतिष्ठायैति प्रतिष्ठाय अनुपश्यति पश्यत्यदितिम् अदितिमिष्ट्वा इष्ट्वा मारुतीम् मारुतीमृषम् वृषमनु अन्वाह आह मरुतः मरुतो वै मयि देवानाम् देवानाम् विषः विषो देवविषम् देवविषम् खलु एवविषमिति देवाविषम् खलु वै वै कल्पमानम् कल्पमानम् मनुष्यविषम् मनुष्यविषमनु मनुष्यविषमिति मनुष्याविषम् अनुकल्पते कल्पते यत् यन्मारुतीम् मारुन्वाह अन्वाह विषान्वाहेतिषाकृत्यै कृत्यै ब्रह्मवादिनः ब्रह्मवादिना वदन्दे ब्रह्मवादिने ब्रह्मवादिनः प्रयाजवद् प्रयाजवदननुयाजम् प्रयाजवदिति प्रयाजावत् अननो याजम् प्रायणीयम् अननो याचमित्यननो याजम् प्रायणीयम् कार्यम् प्रायणीयमिति प्रायनीयम् कार्यमनो याजवत् अनुयाजवदप्रयाजम् अनो याजवदित्यनुयाजावत् अप्रयाजमुदयनीयम् अप्रयाजमित्यप्रायाजम् उदयनीयमिति उदयनीयमित्यदनीयम् इतीमे इमे वै वयि प्रयाजाः प्रयाजा अमी अनुयाजाः अमी, अमी इत्यमी अनुयाजाः सा अनुयाजा सैव एव सा यज्ञस्य यज्ञस्य सन्दतिः सन्दतिस्तः तथा तथा न कार्यम् कार्यमात्मा आत्मा वै वै प्रयाजाः प्रजा प्रयाजा इति प्रयाजाः प्रजानुयाजाः प्रजेति प्राजा अनुयाजा अनुयाजा इत्यनुयाजाः यत्रयाजान प्रयाजानन्तर्याद् प्रयाजाति प्रयाजान अन्तर्यादात्मानम् अन्दर्यादित्यन्द्रहया आत्मपरमन्दः अन्तर्यात् इयाद्ययानन्तर्यात् अनुयादित्यनुयान् अन्तर्यात् प्रजा अन्दर्यादित्यन्दः इयात् प्रजावन्दः प्रजाविधिप्रजा अन्दर्यात् इयाद्यतः यतः खलु खलु वै वै यज्ञस्य यज्ञस्य वितदस्य वितदस्य न विदतस्य न क्रियते अनुयज्ञः यज्ञः पराः परा भवति भवति राभवन् रञ्जमानः पराभवन्त भवन्तम् यजमानो नो अनुपरा परा भवति प्रयाजवत् प्रयाजवदेव प्रयाजवदिरिप्रयाजावत् एवानो या अनु याजवत् अनुयाजवत् प्रायनीयम् अनुयाजवदित्यनो याजावत् राजनीयम् कार्यम् प्रायनीयमिलि प्रायनीयम् कार्यम् प्रयाजवत् प्रयाजवदनुयाजवत् प्रयाजवदिप्रयाजावत् अनुयाजवदुदयनीयम् अनोयाजवदित्यनो याजावत् उदयनीयम् न उदयनीयमिति उदयनीयम् आत्मानमन्तरेति अन्तरेति न अन्तरेतीत्यन्तः एति न प्रजा प्रजा प्रजामिति प्राजा न यज्ञः यज्ञः परा भवति परा भवति यजमानः यजमानः प्रायणीयस्य प्रायणीयस्य निष्कासे प्रायणीयस्य निष्कासमुदयनीयम् उदयनीयम् हि उदयनीयमित्युदयनीयम् अभिनिः निर्वपदि वपदि सा सैव एव सा यज्ञस्य यज्ञस्य सन्दरिः सन्दनिर्याः सन्दनिरिसन्दः याः प्रायणीयस्य रायणीयस्य याज्याः रायणीयस्येति प्रायनीयस्य याज्यायत् यत्ताः ता उदयनीयस्य उदयनीयस्य याज्याः उदयनीयस्येदयनीयस्य याज्याः कुर्यात् कुर्यात्पराङ्गोकम् लोकमा आरोहेर् रोहेर् प्रमायुगः प्रमायुगः स्यात् प्रमायुग इति प्रामायुगः याद्याः याः प्रायणीयस्य प्रायणीयस्य प्रोनुवाक्याः प्रायणीयस्येति प्रायनीयस्य रोनुवाक्यास्ताः रोनुवाक्यादि परः अनुवाक्याः ता उदयनीयस्य उदयनीयस्य याद्याः उदयनीयस्येदयनीयस्य त्याज्याः करोति करोत्यस्मिन् अस्मिन्नेव एव लोके लोके प्रति प्रतिष्ठलि षलीतिष्ठलिश्च वै वै सुबर्णी सुवर्णी च सुवर्णीतिसुभर्णी चात्मरूपयोः आत्मरूपयोरस्पर्धेताम् आत्मरूपयोरित्यात्मारूपयोः अस्पर्धेताम् सा कद्रूः कद्रोः सुवर्णी सुवर्णीमजयत् सुवर्णीमिति सा साब्रवीत् अब्रवी तृदीयस्याम् तृदीयस्यामिदः इतो दिवि दिवि सोमः सोमस्तम् कमा आहर हरतेन तेनात्मानम् आत्माननिः निष्क्रीणीष्व क्रीणीष्वेति इतीयम् इयं वै वै कद्रूः कद्रोरसौ असौ सुपर्णी सुवर्णी छन्दागंसि सुपर्णीतिसुवर्णी छन्दागुंसि सुवर्णेजाः सौपर्णेजाः साब्रवीत् अब्रवीदस्मै अस्मै वै मयि पितरौ पितरौ पुत्रान् पुत्रान् विभृतः विभृतस्तृतीयस्याम् तृतीयस्यामिदः इतो दिवि दिवि सोमः सोमस्तम् तमा आहरेन तेनात्मानम् आत्मानम् निः क्रीणेष्यति इति मा कर्द्रूः कर्द्रूरवोचत् अवोचदि इति जगति जगत्युत् उदवदत् अवदत् चतुर्दशाक्षरा चतुर्दशाक्षरा सती चतुर्दशाक्षरे चतुर्दशाक्षरः सती सा प्राप्य अप्राप्यति अप्राप्येत्यप्राप्य न्यवर्तत अवर्तत द्वे द्वे अक्षरे द्वे द्वे अक्षरे अमीयेताम् अक्षरे इत्यक्षरे अमीयेतांसा सा पशुभिः पशुभिश्च पशुभिरि पशुभिः दीक्षया दीक्षया च आगच्छत् अगच्छत्तस्मात् तस्मात् जगति जगति छन्दसाम् छन्दसाम् पशव्यतमा पशव्यतमः तस्मात् प्रषव्यतमेदि पशव्यातमः तस्मात् पशुमन्तम् पशुमन्दम् दीक्षा पशुमन्दमिति पशुमन्दम् दीक्षोप उपनमदि नमति त्रिष्टुक् त्रिष्टुगुद् उपपदत् अपत त्रयोदशाक्षरः त्रयोदशाक्षरः श्री त्रयोदशाक्षरः सती सा सा प्राप्य अप्राप्यमि अप्राप्येत्यप्राप्य न्यवर्तत अवर्ततस्यै तस्यै द्वे द्वे अक्षरे द्वे रि द्वे अक्षरे अमीयेताम् अक्षरे इत्यक्षरे अमीयेतांसा सा दक्षिणाभिः दक्षिणाभिश्च तपसा तपसा च चा आगच्छत् अगच्छत्तस्मात् तस्मात् तृष्टुपः द्रष्टुपो लोके लोके माध्यन्दिने माध्यन्दिने सवने सवने दक्षिणाः दक्षिणा नीयन्दे नीयन्त्र एतत् एतत् खलु वावतपः तप इति इत्याहुः आहुर्यः यः स्वम् स्वम् ददाति ददातीति दा इति गायत्री गायत्र्युत् उद, चतुरक्षरा सती चतुरक्षरेति चतुः अक्षराः सत्यजयाः अजया ज्योतिषा ज्योतिषादम् तमस्यै अस्या रजा रजाभि अभ्यरुन्ध अरुन्ध तदजायाः अजाया रजत्वम् अजत्वगुंसा अजत्वमित्यजा सोमम् चा आहर चत्वारि चत्वारि च अक्षराणि चा, अक्षराणि सा साष्टाक्षरा अष्टाक्षरासम् अष्टाक्षरेद्यष्टाक्षराः समपद्यत अपद्यतब्रह्मवादिनः ब्रह्मवादिनो वदन्ति ब्रह्मवादिन यदि ब्रह्मवादिनः वदन्ति तस्मात् तस्मात् सत्यात् सत्याद्गायत्री गायत्री कनिष्ठा कनिष्ठा छन्दसा छन्दसांसती सती यज्ञमुखम् यज्ञमुखम् वरी यज्ञमुखमिति यज्ञामुखम् परीयाय यायेति इति यत् यदेव हेवादः अतः सोमम् सोममा आहरत् अहत्तस्मात् तस्माद्यज्ञमुखम् यज्ञमुखम् वरी यज्ञमुखमिति यज्ञामुखम् अर्यैत् अयत्तस्मात् तस्मात् तेजस्विनीतमा तेजस्विनीतमा पद्भ्याम् तेजस्विनीतमेति तेजस्विनीतमा पद्भ्याम् द्वे पद्भिभ्यामिति पद्भ्याम् द्वे सवने द्वे इति द्वे सवने समगृह्णात् सवने इति सवने समगृह्णान्मुखेन समगृह्णादिति समगृह्णाद् मुखेनैकम् एकयत् यन्मुखेन मुखेन समगृह्णात् समगृह्णात्तत् समगृह्णादिति समगृह्णात् अदथयत् अथयत्तस्मात् यस्माद् द्वे द्वे सवने द्वे इति द्वे सवने शुक्रवती सवने इति सवने शुक्रवती प्रातःसवनम् शुक्रवती इति शुक्रावतीः प्रातःसवनम् च प्रातःसवनमिति प्रातः सवनम् समाध्यन्विनम् माध्यन्विनम् च तस्मात् तस्मात् तृतीयसवने तृतीयसवनृशम् तृतीयसवन इति तृतीयासभवने ऋशमभि अभिषृण्वन्ति शृन्ति धीतम् धीतमिव इव हि हि मन्यन्ते मन्यन्त आशिरम् आशिरम् वा अपनयति मयति सशुक्रताय सशुक्रान्ताय सो सशुक्रत्वायति शशुक्रान्ताय अथोसम् अथो इत्यतोः सम्भरति भरत्येव एवैनत् एनत्तम् अगम् सोमम् सोममाह्रियमाणम् आह्रियमाणम् गन्धर्वः आह्रियमाणमित्या आह्रियमाणम् गन्धर्वो विश्वावसो विश्वावसोपरि पर्यमुष्णात् अमुष्णात् सः स्वतिस्रः तिस्रोरात्रीः रात्रेः परिमुषितः परिमुषितोऽवसद् परिमुषित इति परिमुषितः अवसत्तस्मात् तस्मात् तिस्रः तिस्रोरात्रीः रात्रीः क्रीतः क्रीतः सोमः सोमो वसति ते ते देवाः देवाब्रुवन् अब्रुवन् श्रीरामाः श्रीरामा वै श्रीरामा इति श्रीरामः वै गन्धर्वाः अन्धर्वा स्त्रिया स्त्रियानिः निष्क्रीणाम क्रीणामेति इति ते ते वाचम् वाचग्रस्त्रियम् स्त्रियमेकहायिनीम् एकहायिनीम् कृत्वा एकहायिनीमित्येकाहायिनीम् कृत्वा तया तयानिः निरक्रीणन् अक्रीणान् सा रोहित् रोहिद्रूपम् रूपं कृत्वा कृन्त्वा गन्धर्वेभ्यः अन्धर्वेभ्योऽपक्रम्य अपक्रम्या तिष्ठत अपक्रमेत्यपाक्रम्य अतिष्ठत्त तद्रोहितः रोहितो जन्म जन्मते हे देवाः देवा अब्रुवन् देवा अब्रुवन्नप अब अपयुष्मद् अब युष्मदक्रमीन् अक्रमीन् नास्मान् ना अस्मानुपावर्तते अस्मान उपावर्तते वि उपावर्तत इत्युवावर्तते विह्वयामहे वयामः इति ब्रह्म ब्रह्म गन्धर्वाः गन्धर्वा अवदन् गंधर्� अवदन्न गायन् देवाः स देवान् एवान् गायतः गायतमुपावर्तत उपावर्तत तस्मात् उपावर्तते इति वा स्त्रियः कामयन्ते कामयन्ते कामुकाः कामुकायनम् येन ग्रियः स्त्रियौ भवन्ति एवम् एवम् वेदा वेदाथोः अथो यः एवम् एवम् विद्वान् विद्वानपि अभिजन्येषु जन्मेषु भवति भवति तेभ्यः तेभ्य एव एतद् यद्बहुदयाः बहुदया भवन्ति बहुदया इति बहूदयाः भवन्त्येकहायन्या एकहायन्या क्रीणाति एकहायन्येत्येकायन्याः क्रीणाति वाचा वाचैव एनैनम् येन किम् सर्वया सर्वया क्रीणाति क्रीणाति तस्मात् तस्मादेकहायनाः एकहायना मनुष्याः एकहायना इत्येकाहायनाः मनुष्यावाचम् वाचम् वदन्ति वदन्त्यकूटया अकूटया कर्णया अकर्णया काणया अकाणया श्लोनया अश्लोणया सप्तशफया असप्तशफया क्रीणाति असप्तशफयेत्यसप्ता शफयाः क्रीणाति सर्वया सर्वैवैनम् एनम् क्रीणाति क्रीणाति यच्छ्रेतया श्रेतया क्रीणीयात् क्रीणीयाद्दुश्चर्मः ऋश्चर्मायजमानः दृशर्मेति दोहो जर्मा यजमानः स्यात् स्याद्यद् यत्कृष्णया कृष्णयानुस्तरणे अनुस्तरणे स्यात् अनुस्तरणेत्यनुस्तरणे यात्प्रमायुगः प्रमायुगोयजमानः प्रमायुगैति प्रामायुगः यजमानः स्यात् स्याद्यद् यद्विरूपयाः द्विरूपया वार्त्रघ्ने द्विरूपयेति द्विरूपयाः वार्त्रघ्ने स्याद् वार्त्रघ्नेति वार्त्राघ्नी या सः वाण्यम् अन्यञ्जिनीयाद्दिनीयात्तम् तम्बा वाण्यः अन्योदिनीयाद् जिनीयादरुणया ऋणया पिङ्गाक्ष्या लिङ्गाक्ष्या क्रीणादि लिङ्गाक्ष्येतिपिङ्गाक्ष्या क्रीणात्येतत् एतद्वै द्वि सोमस्य सोमस्य रूपम् रूपग्रस्वयाः स्वयैव एनैनम् एनम् देवतया देवतया क्रीणाति क्रीणादीति तद्भिरण्यम् हिरण्यमभवत् अभवत्तस्मात् तस्मादद्भ्यः अद्भ्यो हिरण्यम् अनभ्य इत्येतद्भ्यः हिरण्यम् वनन्ति वनन्तिर्ब्रह्मवादिनः ब्रह्मवादिना वदन्ति ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति कस्मात् कस्मात् सत्यात् सत्यादनश्रियेन अनश्रियेन प्रजाः प्रजाः प्रवीयन्ते प्रजा इति प्राजाः प्रवीयन्ते स्तम्भतीः प्रवीयन्ते इति प्रावीयन्ते स्तम्भती अस्तन्वदीरित्यस्थन्वतीः जायन्त इति यद् यद्धिरण्यम् हिरण्यम् घृते घृतेऽवधाय अवधाय जुभोति अवधायेत्यवधाय जुहोजितस्माद् तस्मादनस्तिकेन अनस्तिकेन प्रजाः प्रजाःप्र प्रजायुर्प्राजाः प्रवीयुन्दे गीयुन्दे स्थन्वदीः अस्थन्वदीयर्जायन्ते अस्तन्वदीरित्यस्थन्वतीः जायन्त एतत् एतद्वै वा मग्नेः अग्नेः प्रियम् प्रियम् धाम धाम यत् यद्घृतम् घृतम् तेजः तेजो ते ते शुक्रा शुक्रतनोः तनोरिदम् इदम् वर्चः वर्च इति इत्याह आह सतेदसम् सतेजसमेव सतेजसमिति सा तेजसम् एवैनम् करोति सतनमिति सम् करोत्यसो अतोसम् अतो इत्यसो सम्भरति भरत्येव एवैनम् यदवद्धम् अवद्धमवदध्याद् अवदध्याद्गर्भाः अवदध्यादित्यवदध्यात् गर्भाः प्रजानाम् प्रजानाम् प्रापातुकाः प्रजानामिति प्राजानाम् प्रापातुकाः स्युः रापातुका इति प्रापातुकाः शिर्बद्धम् बद्धमव अवदधाति दधातिगर्भाणाम् गर्भाणाम् धृत्यै धृत्यै निष्टर्क्यम् निष्टर्क्यम् बध्नादि रध्नादिप्रजानाम् प्रजानाम् प्रचलनाय प्रजानाम् यदि प्राजानाम् प्रचलनाय वा प्रजननाय यदि प्राजनाय वा द्वै वा एषा एषा यत् यत्सोमक्रयणी सोमक्रयणीजूः सोमक्रयणीति सोमाक्रयणी जूरसि असीति इत्याह आहयत् यद्धि मनसा मनसा जगते जगते तद्वाचा वाचा वदति वदति धृता धृता मनसा मनसेति इत्याह आह मनसा मनसा हि किवाधृता धृता दुष्टाः दुष्टा विष्णवे विष्णव इत्याह आह यज्ञः यज्ञो वै वै विष्णुः विष्णुर्यज्ञाय यज्ञानैव एवेनाम् एनाम् दुष्टाम् जुष्टाम् करोति करोति तस्याः तस्याः से ते सद्यसवसः सद्यसवसः प्रसवे सद्यसवस इति सत्यासवसः प्रासवेताम्प्रसूतामेव सतुर्प्रसूतामिति सविदर्प्रसूतान्धे काण्डे काण्डे काण्डे काण्डे वै काण्डे काण्डे काण्डे काण्डे वै क्रियमाणे क्रियमाणे यज्ञम् यज्ञकम् रक्षाकुंसि रक्षाकुंसिखाकुंसन्ति ्यागुम् सन्धेशः एष खलु खल्वै वा अरक्षोहतः अरक्षोहतः पन्थाः अरक्षोहद इत्यरक्षाः पन्थायः योऽग्नेः अग्नेश्च चसूर्यस्य सूर्यस्य च चसूर्यस्य सूर्यस्य चक्षुः चक्षुरा आरुहम् अरुहमग्नेः अग्नेरक्षणः अक्ष्णः करीणिकाम् इत्याह आहयः यदेव एवारक्षोहतः अरक्षोहतः पन्थाः अरक्षोहत इत्यरक्षः पन्थास्तम् तगम् समारोहति समारोहति वाक् समारोहतीति समारोहति वा द्वै वा एषा चिदसि असि मना मनासि इत्याह आशास्ति शास्त्येव एवेतत् नाम, एतत्तस्मात् तस्माच्छिष्टाः शिष्टाः प्रजाः प्रजा जायन्ते प्रजा इति प्राजाः जायन्ते चेत् चिदसि असीति इत्याह आहयत् यद्धि किमनसा मनसा चेतयते चेतयते तत् तद्वाचा वाचा वदति वदति मना मनासि असीति इत्याह आहयत् यद्भिः किमनसा मनसाभिगच्छति अभिगच्छति तत् अभिगच्छति इत्यभिगच्छति तत् करोति करोति धीः असीति इत्याह आहयत् यद्धि मनसा मनसा ध्यायति ध्यायति तत् तद्वाचा वाचा वदति वदति दक्षिणा दक्षिणासि असीति इत्याह आह दक्षिणा दक्षिणाहि ह्येषा एषा यज्ञियासि असीति इत्याह आह यज्ञियाम् यज्ञ्यामेव एवैलाम् एनाम् करोति क्षत्रियासि असीति इत्याह आह क्षत्रियाः क्षत्रिया हि येषा एषादितिः उभयदशीर्ष्णेति उभयदशीर्ष्णेत्युभयदः शीर्ष्णे इत्याह आहयत् यदेव एवादित्यः आदित्यस्प्राजनीयः प्राजनीयो यज्ञानाम् प्रायणीय इति प्रायनीयः यज्ञानामादित्यः आदित्य उदयनीयस्तस्माद् उदयनीय अयनीयः तस्मादेवम् एवमाह आहयद् यदबद्धा अबद्धा स्यात् स्यादयता अयता स्यात् स्याद्यद् यत्पदिवृद्धा परिवृद्धानुस्तरणे अनुस्तरणे स्यात् अनुस्तरणेत्यनुस्तरणे स्यात् प्रमायुकः प्रमायुगैरि प्रमायुगः यजमानः स्यात् स्याद्यत् यत्कर्णगृहीता कर्णगृहीता वार्तघ्ने कर्णगृहीतेति कर्णागृहीता वार्त्रघ्ने स्याद् वार्त्रघ्नेति वार्त्राघ्ने स्यात् सः स वान्यम् अन्यञ्जनीयात् जनीयात् तम् तम् वाण्यः अन्यो जनीयात् इत्याह आहमित्रः मित्रो वै वै शिवः शिवो देवानाम् देवानाम् तेन तेनैव एवैनाम् एनाम् परि परिवर्ध्नादि अध्नादि अर्धनः पादो पातिरि इत्याह आहेयम् इयम् वै वै पूषा पूषेमाम् इमामेरा एवास्या आह अधिपामकः अधिपामित्यधिपाम् अकः समष्टै समष्ट्या इन्द्राय समष्ट्या इति साम् अष्टै इन्द्रायाध्यक्षाय अध्यक्षायेति अध्यक्षायेत्यथे रक्षाय इत्याह आहेन्द्रम् इन्द्रमेव एवास्याः तस्याध्यक्षम् अध्यक्षम् करोति अध्यक्षमित्यधिरक्षम् करोत्यनु अनुत्वा माता माता मन्यताम् मन्यतामणो अनुमिता पितेति इत्याह आहानुमतया अनुमतयैव अनुमतयेत्यनोमतया एवैनया येनया क्रीणाति क्रीणाति सा सा देवि देवि देवम् देवमच्छा अच्छेः इत्याह आह देवी देवीः ह्येषा एषा देवः देवः सोमः इन्द्राय इन्द्राय सोमम् इत्याह आहेन्द्राय इन्द्राय हि हि सोमः सोमाह्रियते आह्रियते यत् आह्रियत इत्याह्रियते यदेतत् एतद्विदुः यदुर्न न ब्रूयात् ब्रूयात्पराची पराच्येव एव सोमक्रयणी सोमक्रयणीयात् सोमक्रयणीति सोमाक्रयणी या रुद्रः रुद्रस्त्वा आवर्तयतु इत्याह आहरुद्रः रुद्रो वै वै क्रौरः क्रोरो देवानाम् देवानान्दम् तमेव एवास्यै अस्यैस्ताहात् परस्तावृत्तिः आवृत्ति क्रोरम् आवृत्या इत्यावृत्तिः क्रोरमिव एतद् एतत्करोति करोति यद् यद् रुद्रस्य रुद्रस्य कीर्तयति कीर्तयति निन्त्रस्य तथा इत्याह आशान्तिः शान्ति वाचा वाचा वै वा एष क्रीणीतेयः यः सोमक्रीण्या सोमक्रीण्या स्वस्ति सोमक्रीण्येति सोमाक्रीण्या सोमसखा सोमसखा पुनः सोमसखेति पुनरा येहि इह सह सह रय्या रय्येति इत्याह आहवाचा एव विक्रीय विक्रीय पुनः विक्रियेति विक्रिय पुनरात्मन् आत्मन् आत्मन वाचम् धत्ते धत्तेऽनुपदासुरा अनुपदासुरास्य अनुपदासुरेत्यनुपादासुराः अस्य वाग् वाग्भवति भवति यः एवम् एवम् वेद वेदेति वेद षट्पदानि पदान्यनु अनुनि निक्रामति क्रामदिषडहम् षडहम् वाक् षडहमिति षड् अहम् वाङ् नाति अतिवदति वदद्युत उत संवत्सरस्य संवत्सरस्यायने संवत्सरस्येऽपि संवत्सरस्य अयने यावति यावत्येव एव वाक् अवरुन्धे रुन्धे सप्तमे सप्तमे पदे पदे जुहोदि जुहोति सप्तपदा सप्तपदा शक्वरी सप्तपदे सप्तापदाः शर्करी पशवः पशवः शकरी शर्करी पशून् पशूनेव एवाव अवरुन्धे सप्त सप्त ग्राम्याः पशवः सप्त सप्तारण्याः आरण्याः सप्त सप्त छन्दाकस्य भजस्य उभयस्यावृद्ध्यै अवरुध्यै वस्वी अवरुध्या इत्यवावृद्ध्यै वस्यसि असि रुद्रा रुद्रासि असीति इत्याह आहरूपम् रूपमेव एवास्याः अस्या एतत् एतन्महिमानम् महिमानम् व्याजष्टे याजष्टे बृहस्पतिः याजष्ट इति आदष्टे बृहस्पतिस्त्वा त्वा सुम्ने सुम्नेरण्वतो इत्याह आह ब्रह्म वै वै देवानाम् देवानाम् बृहस्पतिः ब्रह्मणैव एवास्मै अस्मै पशून् पशोनव अपरुन्धे रुन्धे रुद्रः रुद्रो वसुभिः वसुभिरा वसुधिरिति वसोभिः आचिकेतौति इत्याह आहावृत्यै आवृत्यै पृथिव्याः आवृत्या पृथिव्या स्वाहा आमूर्धन् मूर्धन्ना आदिघर्मि जिघर्मि देवयजने देवयजन इति देवयजन इति देवायजने इत्याह आह पृथिव्याः पृथिव्या हि एषः एष मूर्धा मूर्धा यत् यद्देवयजनम् देवयजनमिडायाः देवयजनमिति देवायजनम् इडायाः पदे पद इति इत्याह आहेडायै इडायैः येतत् एतत्पदम् पतञ्जते यत् सोमक्रयण्ये सोमक्रयण्ये घृतवती सोमक्रयण्या इति सोमक्रयण्ये स्वाहा घृतवतीति घृतवती स्वाहेति इत्याह आहेत यदेव एवास्यै अस्यै पदाद् पदाद्घृतम् घृतमपेड्यत अपेड्यतस्वात् तस्मादेवम् एवमाह आहयद्धर्युः अब्धर्युरनग्नौ अनग्नाबाहुतिम् आहुतिञ्जुभयात् आहुदिभयादन्धः अन्धोद्धर्युः अब्धर्युः स्यात् स्याद्रक्षागुंसि रक्षागुंसि यज्ञम् यज्ञगुम्हन्युः अन्युर्हिरण्यम् हिरण्यमुपास्य उपास्य जुभोदि उपास्येत्युपास्य जुहोद्यपति अग्निपत्येव अग्निपतीति एव जहोति जुहोति नर्युः अध्वर्युर्भवति भवति नंसिंसिकम् रक्षाकुंसि रक्षाकुंसिंसन्तिलिखितम् परिलिखितम् रक्षः परिलिखितमिति परिलिखितम् रक्षः परिलिखिताः परिलिखिता अरादयः परिलिखिता इति परिलिखिताः अराधय इत्याह आह रक्षसाम् रक्षसामपहत्यै अपहत्या इदम् अपहत्या इत्यपहत्यै इदमहम् अहम् रक्षसः रक्षसो ग्रीवाः ग्रीवापि अपि क्रन्दामि क्रन्दामि यः योऽस्मान् अस्मान्द्वेष्टि द्वेष्ट्यम् यम् च वयम् वयम् द्विष्मः द्विष्म इति इत्याह आह द्वौ द्वौ वाव वावपुरुषौ पुरुषौयम् यम् चैव एव द्वेष्टि द्वेष्ट्यः यश्च तैनम् एवम् द्वेष्टि द्वेष्टितयोः तयोरेव एवानन्दरायम् अनन्तरायम् ग्रीवाः अनन्तरायमित्यनन्दः अयम् ग्रीवाः क्लति क्रन्दति पशवः पशवो वै वयि सोमक्रयण् पदम् सोमक्रयङ्या इति सोमाक्रयण्यै पदञ्जावद्मूतम् यावत् मूतकम् सम् यावद्मूतमिति सम्भवति अपदि पशून् पशूनेव एवाव अवरुन्धे वृन्धे स्मे अस्मे इत्यस्मे राय इति सम्भवति अपद्यात्मानम् आत्मानमेव एवाद्धर्युः अध्वर्युः पशुभ्यः पशुभ्यो न पशुभ्य इति नान्तः अन्तरेति एदित्वे त्वे राजः त्वे इति त्वे राज इति यजमानाय यजमानाय एव रयम् प्रयिन्द्रदि तथा तोते राजः राज इति पत्न्यै पत्न्या अर्थः अर्धो वै वा आत्मनः आत्मनो यद् यद्पद्नीः पद्नीरसा यथा गृहेषु गृहेषु निधत्ते निधर्दे तादृग् निधर्त इति एव तत् तत्पष्टीमती त्वष्टीमती ते ते सपेय सपेजेति इत्याह आहत्पष्टाः पृष्टा वै वै पशूनाम् पशूनाम् व्यसुनानाम् व्यसुनानाकम् रूपकृद् रूपकृद्रूपम् रूपकृदिति रूपाकृत् रूपमेव एव पशुषु पशुषु दधाति वै लोकाय लोकाय गारहपत्यः गारहपत्यः गारहपत्यैति गारः पत्यः अधीयते धीरेवैः अमुष्मा आहवनीयः आहवनीयो यत् आहवनीयच्च आहवनीयः यद्गारहवृद्ये गार्हवद्य उपोपेर् गार्हवृद्धयेति गार्हवद्येः अस्मिन् लोके लोके पुशुमान् पशुपान् स्यात् पशुमाञ्चिपुषुमान् स्यादिर् यदाहवनीये आहवनीयेमुष्मिन् आहवनीय इत्याहवनीये आह अमुष्मिन् लोके लोके पशुमान् पशुमान् चात् पशुमानिति पशुमान् स्यादुभयोः उभयोरुप उपोपदि उपत्युभयोः उभयोरेव एवम् एनम् लोकयोः लोकयोः पृशमन्तम् वृशमन्दम् करोति वशमन्दमिति पशुमन्दम् करोतीति करोति ब्रह्मवादिनो वदन्ते ब्रह्मवादने च ब्रह्मवादिनः वदन्ति विचित्रः विचित्रः सोमा विचित्र इति विचित्रः सोमा विचित्रा विचित्रा इति विचित्रा इति विचित्रा इति सोमः सोमो वै त्वा ओषधीनाम् ओषधीनागम् राजा राजा तस्मिन् तस्मिनैर् यदापन्नम् आपन्नम् ग्रसितम् आपन्नमित्यापन्नम् ग्रसितमेव एवास्य अस्य तत् तद्यद् यद्विषुण्याद् विचुणयाद्यथा विचुणयादिति विचयात् यथा स्यात् स्याद्ग्रसितम् ग्रसितम् निष्खिलति निष्खिलति तादृग् निष्खिलति इति निःखिलति तादृगेव न विचिनुयात् विचिनुयाद्यथायादिति विचिनुयात् यथाक्षण् अक्षन्नापन्नम् आपन्नम् विधावति आपन्नमित्यापन्नम् विधावति तादृग् विधावतीति विधावति तादृगेव एतत् तत्क्षोधुरः क्षोधुरोर्धर्यो धर्युः स्यात् स्यात् क्षोधकः शोधको युजमानः यजमानसोमविक्रयन् सोमविक्रयन् विक्रयन् सोमाविक्रयन् सोमरि इत्येव एव सोमविक्रयणम् सोमविक्रयणमर्पयति सोमविक्रयणमिति सोमाविक्रयणम् अर्पयति तस्मात् तस्मात् सोमविक्रयी सोमविक्रयी क्षोधकः सोमविक्रयीरि रुणोः आहोपवेशि उपवेशि सोमक्रयणे उपवेशिविद्योपावेशि सोमक्रयण एव सोमक्रयण इति सोमादिक्रयणे एवाहम् अहम् तृतीयसमनम् तृतीयसमनमव तृतीयसमनमिति तृतीयासमनम् अवगन्धे वृन्धै पशूनाम् पशूनाम् सन्मन् सन्मन् पशून् पशूनैवन्धे वृन्धे पशवः पशवो हि कामये तस्य अपशुरेव भवति भवति कामयेद कामेदुष्मान्मान् स्यात्स्तस्य तस्य मीदीत एतद्वै द्वै पशूनाम् पशूनाकम् रूपम् रूपकम् रूपेण रूपेण इव एवास्मै अस्मै पशून् पशूनव अपरुन्धे वृन्धे पशुमान् पशुमानेव पशुमान्ति पशुमान् भवत्यपा अपामन्दे मन्देः क्रीणाति क्रीणाति सरसम् सरसमेव सरसमिति सारसम् एवैनम् एनम् क्रीणाति क्रीणात्यमात्यः अमात्योऽसि असीति इत्याह आहमा अमैव एवैनम् एनम् कुरुते कुरुते शुक्रः शुक्रस्ते ते ग्रहः इत्याह आह शुक्रः शुक्रो हि ह्यस्य अस्य ग्रहः ग्रहो न अनसा च अच्छयाति याति महिमानम् महिमानमेव एवास्य अस्याच्छ अच्छयाति यात्यनसा अनसा च अच्छयाति याति तस्मात् तस्मादनो वाह्यम् अनोवाह्यतुम् समे अनोवाह्यमित्यनः वाह्यम् समे जीवनम् जीवनन्यत्र यत्र खलु खलु वा एतदम् एतदम् शीर्षा शीर्षा हरन्ति हरन्ति तस्मात् तस्माच्छीर्षहार्यम् शीर्षहार्यम् गिलौ शीर्षहार्यमिति शीर्षाहार्यम् गिलौ जीवनम् जीवनमभि अभित्यम् देवम् देवकं सवितारम् सवितारमिति इत्यतिच्छन्दसा अतिच्छन्दसर्चा अतिच्छन्दसेन्दसाः वै अतिच्छन्दाः इत्यरीछन्दाः वै सर्वाणि सर्वाणि छन्दागुंसि छन्दागुंसि सर्वेभिः सर्वेभिरेवन्दोभिः छन्दोभिर्मिमीते छन्दोभिर्तिछन्दःभिः मीते लक्ष्म वर्ष्म वै वा एषा एषा छन्दसा छन्दसा यद् यदतिच्छन्दाः अतिच्छन्दायद् अतिच्छन्दायत्यतिछन्दाः यदतिच्छन्दसा अतिच्छन्दसर्चा अतिच्छन्दसेत्यति छन्दसाः ऋचामिमीते मिमीते वर्ष्म वर्ष्मैव एलियम् एनकुम् समानानाम् समानानाम् करोति करोत्येकैकया एकैकयोत्सर्गम् एकैकयेत्येकया ऐलयः उत्सर्गम् मिमीते उत्सर्गमित्युत्सर्गम् मिमेते यातयाम्न्या यातयाम्न्या अयातयाम्न्या यातयामन्यैव अयातयाम्न्या यातयाम्येत्यजातयाम्य अयातयाम्य एवम् एदम् विमीते मेते तस्मात् तस्मान्नावीर्याः नानावीर्या अङ्गुलयः नानावीर्या इति नानावीर्याः अङ्गुलयः सर्वासु सर्वासङ्गुष्ठम् अङ्गुष्ठमुप उपनि निगृह्णाति गृह्णाति तस्मात् तस्मात् समावद्वीर्यः समावद्वीर्यो अन्याभिः समावद्वीर्यैः समावद्वीर्यः अन्याभिरङ्गुलिभिः अङ्गुलिभिस्तस्मात् अङ्गुलिभिरित्यङ्गुलिभिः तस्मात् सर्वाः सर्वा अनु अनसम् सञ्चरति चरति यत् यत्सः सः सर्वाभिः सर्वाभिर्मिमीत मिमीत सर्गश्लिष्टाः सर्गश्लिष्टाः अङ्गुलयः सर्गश्लिष्टा इति संश्लिष्टाः अङ्गुलयो जायेरन् जायेरन्मेकैकया एकैकयोत्सर्गम् एकैकयेत्येकया एकया उत्सर्गम् विमीते उत्सर्गमित्युदुसर्गम् विमीते तस्मात् तस्माद्विभक्ताः विभक्ता जायन्ते विभक्ता इति विभक्ताः जायन्ते पञ्च पञ्चकृत्वः कृत्वो युदुषा यजुषा विमीते विमीते पञ्चाक्षरा पञ्चाक्षरा पङ्क्तिः पञ्चाक्षरेति पञ्चाक्षराः पङ्क्तिः पाङ्गः पाङ्गो यज्ञः यज्ञो यज्ञम् यज्ञमेव एवाव अवरुन्धे वृन्धे पञ्च पञ्चकृत्वः कृत्वस्तूष्णीम् दश दशसम् सम्पद्यन्ते पद्यन्ते दशा अक्षरा दशा अक्षरा विराड् दशा अक्षरेति दशा अन्नम् विराड् विराड् विराजाः विराज इव विराजयति विराजाः एवान्नाद्युम् अन्नाद्युमव अन्नाद्युमित्यन्नाद्युम् अवरुन्धे रुन्धेत् यद्यजुषा यजुषा मिमीते मिमीते भूतम् भूतमेव एवाव अवरुन्धे रुन्धेत् यत्तूष्णीम् तूष्णीम् भविष्यत् भविष्यद्यद् यद्वै वै तावान् तावानेव एव सोमः सोमः स्यात् स्याद्यावन्तम् यावन्तम् ममीते इमेते यजमानस्य यजमानस्यैव एव स्यात् स्यान्नापि नापि अपि सदस्यानाम् सदस्यानाम् प्रजाभ्यः प्रजाभ्यस्त्वा प्रजाभ्यै प्रजाभ्यः त्वेति इत्युप उभसम् समूहति ऊहति सदस्यान् सदस्यानेव एवान्वा भजति अन्वा भजति वाससा अन्वा भजति भजति वाससोप उपनश्यति नश्यति सर्वदेवत्यम् सर्वदेवत्यम् वै सर्वदेवत्यमिति सर्वादेवत्यम् वै वासः वासः एवैनम् एवम् देवताभिः देवताभिः सम् समर्धयति अर्धयति पशवः पशवो वै वै सोमः सोमः प्राणाय प्राणायत्वा प्राणायति प्रा अनाय त्वेति इत्युप उपनश्यति नश्यति प्राणम् प्राणमेव प्राणमिति प्राणम् एव पशुषु पशुषु ज्ञानायत्वा ज्ञानायति वि अनाय त्वेति इत्यनु अनुसृन्धति शृन्थति ज्ञानमेव ज्ञानमिति अनम् एव पशुषु पशुषु दधाति अधाति तस्मात् तस्मात् स्वबन्दम् स्वपन्दम् प्राणाः प्राणान प्राणादिति प्राणाः न जहति जहतीति जहति यत्कलयाः कलया ते ते शफेन ते क्रीणानि क्रीणानिति इति पणेत पणेतागो अर्घम् अगोऽर्घकम् सोमात् अगोऽर्घमित्यगो अर्घम् सोमम् कुर्यात् क्रूयादगोऽर्घ्यम् अगो अर्घ्यजमानः अगोऽर्घमित्यगो अर्घम् यजमानमगोऽर्घ्यम् अगोऽर्घमद्धर्यम् अगो अर्घमित्यगो अर्घम् अद्धर्यम् भोः गोस्तु महिमानम् महिमानन्न नार अवतिरेद्गवारे ते क्रीणामि क्रीणामीति इत्येव एव ब्रूयात् ब्रूयाद्गो अर्घम् गो अर्घमेव गो अर्घ्यमिति गो अर्घ्यम् एव सोमम् सोमम् करोति करोति गो अर्घम् गो अर्घम् गो अर्घमिति गो अर्घम् गो अर्घ्यम् गो अर्घमद्धर्युम् गो अर्घमिति गो अर्घम् अद्धर्युन्न न गोः गोर्ममानम् अजया क्रीणाति क्रीणाति सतपसम् सतपसमेव सतपसमिति सा तपसम् एवैनम् एनम् क्रीणाति क्रीणाति हिरण्येन हिरण्येन क्रीणाति क्रीणाति सशुक्रम् सशुक्रमेव सशुक्रमिति सा शुक्रम् एवैनम् एनम् क्रीणाति क्रीणाति धेन्वा एवैनम् एनम् क्रीणाति क्रीणाति ऋषभेण ऋषभेण क्रीणाति क्रीणाति सेन्द्रम् सेन्द्रमेव सेन्द्रमिति सा एवैनम् एनम् क्रीणाति क्रीणात्यनडुहा अनडुहाः क्रीणाति क्रीणाति वह्निः वह्निर्वै वा अनड्वान् अनड्वान् वह्निना एव वह्नि वह्नियज्ञस्य यज्ञस्य क्रीणाति क्रीणाति मिथुनाभ्याम् मिथुनाभ्याम् क्रीणाति क्रीणातिवासस्य मिथुनस्यावरुद्धि अवरुद्ध्यै वाससा अवरुद्धा इत्यवरुद्ध्यैः वाससा क्रीणाति क्रीणाति सर्वदेवत्यम् सर्वदेवत्यम् मयि सर्वदेवत्यमिति सर्वादेवत्यम् वयि वासः वासः सर्वाभ्यः सर्वाभ्य एवम् देवताभ्यः देवताभ्यः क्रीणाति क्रीणाति दश रसम् सम्पद्युन्ते पद्युन्ते दशाक्षरा दशाक्षरा विराट दशाक्षरे अन्नम् विराट विराड् ीराट् विराज इव विराजेति वीराजा एवान्नाद्युम् अन्नाद्योव अन्नाद्यमित्यन्नाद्यम् अपगन्धे कन्धे तपसः तपसस्तमोः तनोदसि असि प्रजापतेः प्रजापतेर्वर्णः प्रजापतेर्वित्प्रजापतेः वर्ण इति इत्याह आह पशुभ्यः पशुभ्य एव पशुभ्य इति पशुभ्यः एव तद् इन्धुरे आत्मनः आत्मनो नाम् पुरस्काय अनाहास्काय गच्छति अनाहाम् पुरस्कायम् पुरस्काय गच्छति श्रियम् श्रियम् प्रपशून् पशूनाहात्मोभि आत्मोऽभियः य एवम् एवम् वेद वेद शुक्रम् शुक्रम् देहे हे शुक्रेण शुक्रेण क्रीणामि एनावीति इत्याह आह यथायजुः यथायजुरेव यथायजुरिति यथायजुः एवैतत् एतद्देवाः देवा, देवा वी वी येन येन हिरण्येन हिरण्येन सोम् सोमक्रीणन् अक्रीणन् अभी अभी पुनः अभीषहेत्यभीसः पुनरा आददद अर्धदतरः को हि हि तेजसा तेजसा विक्रेष्यते विक्रेष्यरैरि विक्रेष्यरैर्विक्लेष्यते इति येन येन हिरण्येन हिरण्येन सोमम् सोमम् क्रीणीयात् क्रीणीयात्तत् तदभीषः अभीषः पुनः अभीषहेत्यभीषः पुनरा आदधीत ददीततेजः तेज एव ते एवात्मन् एवा आत्मन्धत्ते धत्तेऽस्मे अस्मे ज्योतिः अस्मेत्यस्मै ज्योतिर्सोमविक्रयिणि सोमविक्रयिणि तमः सोमविक्रयिणीति सोमाविक्रयिणि तम इति इत्याह आह ज्योतिः ज्योतिरेव एव यजमाने यजमाने दधाति दधाति तमसा समसा सोमविक्रयणम् सोमविक्रयणमर्पयति सोमविक्रयणमिति सोमाविक्रयणम् अर्पयति यत् यदनुपग्रथ्य अनुपग्रथ्य हन्यात् अनुपग्रथ्य इत्यनुपाग्रथ्य हन्याद्दशोकाः दन्दशोकास्ताम् तागुम् समाम् समागुम् सर्पाः सर्पा स्युः स्युरिदम् इदमहम् अहगुम् सर्पाणाम् ग्रीवाः ग्रीवा उप उप ग्रच्छामि ग्रच्छामीति इत्याह आहादन्दशोकाः अदन्दशोकास्ताम् पाकुम् समागम् समाकम् सर्पाः सर्पा भवन्ति तमसा सोमविक्रयणम् सोमविक्रयणम् विध्यति सोमविक्रयणमिति सोमा विक्रयणम् विध्यति स्वान स्वानभ्राज भ्राजेति इत्याह आहैते एते वै अमुष्मिन् अमुष्मिन्लोके लोके सोमम् सोममरक्षन् अरक्षन्तेभ्यः तेभ्योऽधि अधिसोमम् सोममा आहरन् अहरमेद् यदेतेभ्यः एतेभ्यः सोमक्रयणान् सोमक्रयणान् सोमक्रयणानिति सोमाक्रयणान् नानुदिशेद् अनुदिशेदक्रीतः अनुदिशेदित्यनुदिशेद् अक्रीतोऽस्य अस्य सोमः सोमः स्यात् स्यान्न नास्य अस्यैते एतेमुष्मिन् अमुष्मिन्लोके लोके सोमम् सोमकम् रक्षेयुः रक्षेयुर्यद् यदेतेभ्यः एतेभ्यः सोमक्रयणान् सोमक्रयणाननुदिशति सोमक्रयणानिति सोमाक्रयणान् अनुदिशतीत्यनुदिशति दि। क्रीतोऽस्य अस्य सोमः सोमो भवति भवद्येते एतेऽस्य अस्यामुष्मिन् अमुष्मिन्लोके लोके सोमम् सोमगुम् रक्षन्ति रक्षन्तीति रक्षन्ति वारणो वै वै क्रीडः सोम उपनद्धः उपनधो मित्रः उपनद्ध इत्युपानद्धः नः एहि इहि सुमित्रधाः सुमित्रधा इति सुमित्रधा इति सुमित्राधाः इत्याह आ शान्त्यैः शान्त्या इन्द्रस्य इन्द्रस्योरुम् ऊरुमा आविश विष दक्षिणम् दक्षिणमिति इत्याह आह देवाः देवा वै वैशम् यगम् सोमम् सोममक्रीणन् तमिन्द्रस्य इन्द्रस्योरौ ऊरौ दक्षिणे आसादयन् असादयन् एषः एष खलु खलु वै वा यो युजते यजते तस्मात् तस्मादेवम् एवमाह आहोद् उदायुषा आयुषाः स्वायुषाः स्वायुषेति स्वायुषेतिसु आयुषाः इत्याह याः देवताः देवता, देवता एवान्वारभ्य अन्वारभ्योत् अन्वारभ्येत्यनु आरभ्य उत्तिष्ठति तिष्ठत्युरु उर्वन्तरिक्षम् अन्तरिक्षमनु अन्विः इहिति इत्याह आहान्तरिक्षदेवत्यः अन्तरिक्षदेवत्यो अन्तरिक्षदेवत्य इत्यन्तरिक्षादेव सोमः सोमोदित्याह अदित्यासदः सदोऽसि अस्य दीत्या अदित्यासदः सदा आसीदीलेति इत्याहयुः यथायजुरेव यथायजुरिति यथायजुः एवैतद् एतद्विवै वानमेतत् एतदर्थयति अर्थयते यत् यद्वारुणम् वारुणम् सन्दनम् सन्दनम् मैत्रं मैत्रम् करोति करोति वारुण्या वारुण्यर्चा रुचासादयति आसादयति साधयति स्वया एवैनम् एनम् देवतया जा, एवतया सम् अर्थयति वाससा वाससा पर्यानश्यति पर्यानश्यति सर्वदेवत्यम् पर्यानश्यतीति परि वै सर्वदेवत्यमिति सर्वादेवत्यम् वै वासः वासः सर्वाभिः सर्वाभिरेव एवम् एनन्देवताभिः देवताभिः सम् समर्थयति अर्धयत्यथोः अथो रक्षसाम् अथो इत्यथो रक्षसामपहत्यै अपहत्य अपहत्या इत्यपाहतीक्षम् अन्तरिक्षम् ददान तदानेति इत्याह आहवनेषु अनेषु हिवि यन्तरिक्षम् अन्तरिक्षम् ददान तथानवाजम् वाजमर्वत्सो अर्वत्स्विति आर्वत्सित्यर्वत्सो इत्याह आहवाजम् वाजम् हि ह्यर्वत्सु ृत्सो हृत्सो कृतं हृत्स्विति हृदयसु कृतमिति हृत्सु हि हृत्स्विति हृदयसु कृतं वरुणः वरुणो विक्षो विक्षोग्नि आह वरुणः वरुणो हि हि वीक्षौ वीक्षाग्निम् अग्निम् यवि दिवि सूर्यम् सूर्यमिति इत्याह आहदिवि दिविः हि सूर्यम् सूर्यम् सोमम् सोममद्रौ अद्राविदि इत्याह आहग्रावाणः ग्रावाणो वै वा अद्रयः तेषु वै वा एषः एष सोमम् सोमम् दधाति दधाति यः यो यजरे यजते तस्मात् तस्मादेवम् एवमाह आहोत् उदु वृत्यम् यञ्जातवेदसम् जातवेदसमिति जातवेदसमिति जातावेदसम् इति सौर्या सौर्यर्च प्रजाकृष्णाजिनम् कृष्णाजिनम् प्रत्यानश्यति कृष्णाजिनमिति कृष्णाजिनम् प्रत्यानश्यति रक्षसाम् प्रत्यानश्यतीति प्रति आनश्यति रक्षसामपहत्यै अपहत्या उस्रौ अवहत्या इत्यपाहत्यस्रावा एतम् इदम् धूरुषाः विदि धूरुषाः विधिधूः इत्याह आह यथायजुः यथायजुरेव यथायजुरिति यथा यजुः यथा यथा एवैतत् दद, एतत्र प्रत्यवस्वा यवस्वभुवः भुवस्पतेः पत इति इत्याह आहभूतानाम् भूतानारुम् हि येषः एष पतिः पतिर्विश्वानि विश्वान्यभि इत्याह आहविश्वाणि विश्वानिः येषः एषोऽभि अभिधामानि धामानि प्रक्ष्यपते प्रक्ष्यपते मा प्रक्ष्यपत इति प्राच्यवते मात्वा यदेव एवादः अधः स्वम् सोममाह्रियमाणम् आह्रियमाणङ्गम् धर्वः आह्रियमाणमित्याह्रियमाणम् अन्धर्वो विश्वावसो विश्वावसः पर्यमुष्णात् विश्वावसुरिति विश्वावसो पर्यमुष्णात्तस्मात् पर्यमुष्णादिति परि अमुष्णात् तस्मादेवम् एवमाह आहापरिमोषाय अपरिमोषाय यजमानस्य अपरिमोषायत्यपरिमोषाय यजमानस्य स्वस्त्ययनी स्वस्त्ययन्यसि स्वस्त्ययनीति स्वस्ति अयनी असीति इत्याह आ यजमानस्य यजमानस्यैव एवैषः एष यज्ञस्य यज्ञस्यान्वारम्भः अन्वारम्भोवच्छित्यै अन्वारम्भेत्यनो आरम्भः अनवच्छित्यै वरुणः अनवच्छित्या इत्यनवाच्छित्यै वरुणोऽपि वा एषः एष यजमानम् यजमानमभि अभ्या इति एति यत् यत्क्रीतः क्रीतः सोमः सोम नमः उपलब्धयित्रिवानथः नमो मित्रस्य मित्रस्य वरुणस्य वरुणस्य रक्षसे रक्षस इति इत्याह शान्त्या आ सोमम् वहन्ति वहन्त्यग्निनाः अग्निना प्रति प्रतिष्ठते तिष्ठते तौ तौ सम्भवन्तौ यजमानम् सम्भवन्दासम्भवन्तौ यजमानमभि अभिसम् सम्भवतः भवतः पुरा पुरा खलु खलु वा वा वैषः एष मेधाय मेधायात्मानम् आत्मानमारभ्य आरभ्य चरति आरभ्येत्यारभ्य चरदि यः दीक्षितः दीक्षितो यद् यदग्निशोमीयम् अग्निशोमीयम् वृषम् अग्निशोमीयमित्यग्नीसोमीयम् वृषमालभते आलभत आत्मनिष्क्रयणः आलभत इत्यालभते आत्मनिष्क्रयण एव आत्मनिष्क्रयण इत्यात्मानिष्क्रयणः एवास्य अस्य सः तस्मात् तस्मात्तस्य तस्य न आश्यम् पुरुषनिष्क्रयणः पुरुषनिष्क्रयण इव पुरुषनिष्क्रयण इति पुरुषानिष्क्रयणः इव हि ह्यथोः अथो खलु अथो इत्यथोः खल्बाहुः आहुरग्नेशोमाभ्याम् अग्नेशोमाभ्याम् वै अग्नेशोमाभ्यामित्यग्नीसोमाभ्याम् वा इन्द्रः इन्द्रो वृत्रम् वृत्रमहन् इति यद् यदग्नेशोमीयम् अग्नेशोमीयम् पुरुषम् अग्निसोमीयमित्यग्निः सोमीयम् पशुमालभते आलभते वार्त्रघ्नः आलभत इत्यालभते वार्त्रघ्न एव वार्त्रघ्न इति वार्त्राघ्नः एवास्य सः स तस्मात् तस्मात् वारुण्यर्चा यचापरि परिचरति चरति स्वयैव एवैनम् एनम् देवतया गा, देवतया परि परिचरति चरति चरति ओष्ठकाण्डे प्रथमः प्रश्नः समाप्तः